जला यस्मात्सृष्टा पराञ्चायन् तानज्ञ नाप्नोद तानुसेण नाप्नोद तान् शोषिनानाप्नोद तान्त्रायानाप्नोद तान् सन्धिनाप्नोद स्वज्ञम्रवीर इमान् महीप्स्यति तानज्ञस्त्रवृतास्तोमेननाप्नोदय स इन्द्रमब्रवीद इमान् महीप्स्येते तानिन्द्रः पञ्चदशेन स्तोमेननात्महोदय स विश्वान् देवानब्रवीद इमान् मयीप्सेदे तान् विश्वे कालविष्णवेकविंशेण स्वमेनाप्नोरे वारवन्थीयेनावारेत इदम् विष्णविचक्रम यदिव्यक्रमता यस्माप्रभ्यंशेरन् एतेन यदेत यदाप्नोद तदप्तोयामस्याप्तोर्यामत्वम् एतेन वेदेवाजयित्वा लिखित्वायम् तदमाप्नुवन् यम् कामम् कामयते तमेतेनाघ्रायमग्नौ जलनिर्प्रविष्टः ऋणाम् रुद्राभिदस्तिपायम् नमस्कारेण नमसा जयजहोनि मा देवानामिति जयाकर्मभागम् सा ये लिखिदेव प्रथवारिमित्रे ब्रह्मानमस्मै वरिमाणमस्मे तथा अस्मभ्यगम् सविदः सर्वदाता विवेदिबहासु बाहोरिपश्वः भूतो भूतेण जलति प्रविष्टः स्वभूतानामधिपजर्गुभो वा अस्य मृत्यौ जलजिराजसूयम् रजाराज्यमनमन्यदम् एभिशिल्पे प्रथानामजृंहज एभिर्द्यामभ्यभिकुंशत् प्रजापतिः एभिर्वाजम् विश्वलोपाकम् समव्येते तेने एर्वाजम् पुष्कले शिरवेन एमग्नेहवर्गसाधवन्ते आयम् फालुदवसा पञ्चकृष्टेः इन्द्रियवज्येष्वाभवदप्रजावान् अस्मास्तु पुष्कलम् चित्रभान आयम् वृणक्षे उपस्थम् यत्पे शिल्पम् कस्य बलो जनावले इन्द्रियावत्पुष्कलम् चित्रभान यस्मिन् शौर्यार्पिताः सप्तसागम् तस्मिन् राजा न विश्रयमम् व्यवचिविच्छव्यये यापि याक्षे विश्रयस्त्रिशामहे विशस्तासर्वा वाञ्छन्तो वा त्वद्राष्ट्रमसिभ्य या दिव्याः वह्पयसादम्बभोवः या अन्तरिक्ष उदवाच्छिभियाः वयसा सह यथासारः प्रवर्धनः तथा विरागरद् इन्द्रम् विश्वावेविरः रचेदमगुम् रचयनान् वाजानागुम् सत्पदिम् पदिम् बस प्रथमस्ता पुरस्तादभिड्यन्तु गायत्रेण छन्ददा रुद्रास्त्वादक्षणताभिञ्जन्तरेण छन्ददा आदित्यास्तापश्चादभिज्यन्तु विरागरेण छन्ददा विश्वे त्वादेवावत्तरतोभिषन्त्यन्तानुष्ठभेन छन्दजापरिष्टादभिषञ्च सुपाङ्गेन छन्दजा मरणन्तामृगमुक्रङ्खङ्करम् रोचमानम् मरुदामग्रे त्रिलः सूर्यवन्तम् मघवानम् विषासहिम् इन्द्रमुक्षेरुणामहोतमगम्भुवेन प्रभाहवाधितरञ्जीवसेनः आनागव्योतिमुक्षदम् कृतेन आनोजनेश्ववैदय्यमाना श्रुतं मे मित्रावरुणाहवेम इन्द्रस्य देवी जगदः बाहूपमि अभिप्रेः वीरयस्व उग्रष्टेताः आदिष्ठवर्त्रहन्तवः तुभ्यम् देवाधिब्रवन् अङ्कौण्यङ्कौ अभिदोर्चय्यौ ध्वान्तम् वाताक्रमण सञ्चरन्तौ दूरेन्द्रियान् पदत्ते तेनाग्प्रारयन्तौ नमस्तरिडेघ अव्यथाये त्वा स्वधायेत्वा मानयेन्द्राभिरस्तु दश्वादिष्टा सह एवा ब्रह्मन्तवेदस्तो यष्टाधयाज्रास्तः आश्वेन्देवयवशयश्वः आधिष्ठव्रान्नाधिष्ठन् दम्परे पदत्वमित्रावरणौ यौश्चत्वा पृथिवीजप्रतेतसः शुक्रबृहद्दक्षिणापिभक्तो अनुस्पथाचिकिताकुम् सोमो अग्नेः अनुत्वावदमिताधवेन इन्द्रम् विश्व अवेदृधन् समुद्रविजशङ्गिरः रचेदवृथेनाम् राजा नागम् सत्पदिम् पयम् परिमासेऽन्याघोषाः जानाम् भ्रञ्जन्तु गृभ्रवः मे तिष्ठाः तन्माता पृथिवी तत्पिताद्योः तद्ग्रावानश्वमसुतोमयोभुवः तदस्मिनासुदौभगायिवम् अवजयेन व्याघ्रम् प्रहितस्वजानाः महते दौभगाय समुद्रम् न सुखवन्तंसम् प्रमज्जन्ते देविनवप्सन्तः पुरसा वेदसौर्यः उदिरम् मामकम्बजः उदिसौर्यः चनम् सन्नधिः यन्तु न तया वर्षन्त्याः सुविफला वोढधया भवन्त अन्नपदामो दनवदामाविक्षपदाम् एषाम् राजा भूयासम् ये कैचन प्रसमा सत्रमासे विरोचतेन रायस्तोषे नेमम् वर्तता प्रकेशा ्रह्मणस्तवतोक्षाभजनेह्युग्राः सुवदे काण्डिनो भवन्ति एकावनस्य नान्यः आरोहप्रोष्ठम् अवाहदानेह्युग्रा देहि दक्षिणाम् प्रतिरस्वायोः कथामुच्चस्वर्णस्य पाशान् येनावपदपिताक्षुरेण सोमस्य राज्ञा वरुणस्य विद्वान् तेन ब्रह्माणावपदेसजासा मा के केशा ननुगाग्वत्र बृहस्पतिः सविधावर्चादधाभ्य निधानम् बहुधाभ्यैच्छन् अन्तराद्या वा जमे अपस्तुवः गर्भस्तम् मे वीर्यग्रमे निधाय ो गुस्ते नेमम् वत्रजाचगुन्द्रजा भवतादधातु सोमस्तानत्ववैलाधितेन श्रीषुरोमश्विनेतन्निधत्तम् ओगुस्तेनम् वत्रगम् नजाता यत् श्रीमन्तम् कङ्कतस्ते विलेख यद्वाहापरिमहर्जवर्गस्ते श्रीषुरोमश्विनेतन्निधत्तम् ॐ गुस्ते नैव कंसकंसरासो वीर्येण इन्द्रम् वैश्वा विश्वमरुतोनापाचार्यन् सोनपचाय्यमानवेदम् विघनमपश्यत् ते अमाहरत् तेन युजदा तेनैवासान्तकुंसकस्तम्भव्यहन् यद्व्यहन् तद्विघनस्य विघनत्वम् पिवात्मानम् प्रादुर्यगुंहते एरे युजैनमेवम् वेद एवम् राजानम् विशो नापजाययोः यो माणस्तमतापा प्रापुतः स्यात् स एतेन यजेत ग्रहणेनैवेन द्विहत्य विषामाधिपत्यम् गच्छति तस्य द्वे द्वादशे अष्टोऽत्रे भवतः एर्विगुंसे औद्भेद्यमेव एतद्वे क्षत्रस्य उद्भेद्यम् यस्मेश्वा विशो बलिगम् हरन्ति हरन्त्यस्मै विशो प्रतिक्षादम् गच्छति य एवम् वेद प्रबाहुवाग्रे क्षत्रान्यादे क्षत्रान्या दत्ता न वा इमानि क्षत्राण्यभो वन्देक्षत्राणान्नक्षत्रत्वम् आश्रयस्वाभ्रातुर्यस्य च एवमेतौ निगमन्तौ स्तोमौ अयक्षोमेषु क्रियते आत्मनापहत्ये अपहात्मानम् राजव्यगुहते नैजे यौ येन एवमेवम् वेद तद्यथा हवेषु चग्रामन्यः एवम् छन्दांसे ते श्वसा वा वित्तो बृहदे अभ्यूढः सतो विधिरक्ताभिस्तुपदे विधिरक्तम् वै क्षत्रम् विषा विषेवणम् बिलिधते विधिरक्ताभिस्तुवदे विधिरक्तो वे ग्राह्मणे स जातेः जाते रेवैनम् बिलिधते विधिरक्ताभिस्तुवदेशक्त वै पुरुषः पाप्मभिः बिलिरक्ताभिरेवस्य पाप्मा श्वेतस्य शक्तिगिता महेश्वरेः ते वायवेतमनसमपितस्थः विश्वे नरस्तुत्यानिचक्रुः रागेणे रागे देवेरणादिदेवम्वाः प्रश्वेतम् मधुषिजन्यरेखे आवायव्याभिः प्रभायमच्छा विगते मेजा विश्ववा रागम्बा युगद्यामानेतः पद्यमानः कविः कविर्पेभ्य आदौभ्यश्वरम्भयाभियज्ञम् मायो अस्मिन् हरियवादयश्व यूयम् पादस्वस्त्यभ्यः सदानः प्रजापदयेनत्वन्यः विश्वा जातानिपरिता बभूव हिकामास्तेजुमस्कन्नास्तु अयज्ञस्यामपदयोम् पदीयलम् विहन्तम् अस्मिन्भरेतौ प्रजापतिम् पथप्रजा प्रजापतेपाः पुराणः देवानाम् विहारिता प्रजानाः पतिर्विश्वस्य हवेदितस्व अवे मे लोकात् प्रतिशोधितश्च परापतो निपदमुद्वदश्च प्रजापतेश्वतिर्जीवजन्य इदन्नो देव प्रतिहर्याम्यम् प्रजापतिम् समयज्ञानाम् देवानामग्रेध्वम् सदोदताम् सुवीर्यम् यत्पोषम्नामस्मे राजीशुद्धनागम् रक्षितानातस्य सहस्रधामायदागम् महिर्णः सोमाभूषणेमो देवौ सोमाभूषणानजतोभिमानम् सप्तदकमविश्वमिन्वम् विशोपतम् मनसा युज्यमानम् पञ्जिन्वथोषणा पञ्चरश्मिम् दिव्यन्नस्तनम् चक्रमुच्च दिव्यामन्याध्यन्तरिक्षे का वस्मभ्यम्बरुतारम्बरुक्षम् रायस्पोषम् विष्यतान्नाभिमस्मे धेयम् घोषायन्वजविश्वमिन्वह हरे विश्वान्यभुवना जानमन्यामभिरक्षा न ये स्वमाभूषणवदन्ध्यम् मे युवभ्याम् विश्वा प्रदनादियेम उदुत्तमम् वरुणास्तघ्नाद्याम् एकङ्कितवासः अवदेहेण सरत्वायामि आदित्यानामवसानदक्षिणा धारयन्त आदित्या सिसुरभूमे धारयन् यज्ञो देवानागुंसुचिरमः हे शुक्रासुदया श्रीमन्तः श्रीसन्नादित्यादिवर्गे प्रिय कामेण देवाः स्वरस निमो नः आयान्तयज्ञमुपनानुषाराः हे सौनवादिदे वसामिलम्वत्प्रतिहर्यन्ततेजाः प्रयज्ञायजमाना ये मुरे आदित्याग्रामम् पितवन्तमस्मे आनपुत्रादिदे हर्यान्तयज्ञम् आदित्या स प्रतिपत्ते वयानेयेः अस्मेकामम् तादृशे सन्नवन्तः प्रोढाशम् कृतवन्तम् जुषन्ताम् सभागनिर्विशताः आदित्याः कामप्रेताम् आदित्याम् कामोजय भवेम हे भवतान् जनयन्तोऽपि चिक्ष्युः श्रीदन्तपुत्रादिजयरुपस्थम् शैर्णम् परिगण्यविनद्याय देवाः हे अन्नम् परिहस्ते तथा यज्ञे अस्मिन्ते सन्तोर्गुदेवाः अस्मभ्यम् पुत्रादिते प्रयगुम् तदा आदित्याः कामः विषोविषाणाः अग्ने सुपथा राजे अस्मान् विश्वान् देव भविनाय विद्वान् योऽध्यस्मद्युः राणमेनः भूयिष्ठान्ते नममुक्तिम् विधेम प्रवश्कराजमानवे भानवे अव्यम् मतिम् चाग्ने अपोजम् यो देव्यानिमानुषा जनोकुंशे अन्तर्विश्वान् विद्मनादिघादे अच्छा किल मदयोधे विजन्तेः अग्नेयम् चन्द्रमिणम् वीक्षमाणाः सन्दृशम् सुप्रदेम् अव्यवाहमरतिम् मानुषाणाम् अभ्यमीवाः पुनरस्मभ्यगुहे क्षाम् विश्वेत्र आज्ञयात्वम् पारव्य अस्मान् स्वस्तिभिरलिदुर्गाणि विश्वाः वृत्त्ये बहुलानुे भवाल्लोकाययोः प्रकारवो मननावच्यमानाः देवद्रेजे नयसदे वयन्तः दक्षिणा वा द्वाजने प्राच्यजे अविभरन्य इन्द्रन्नम् जगर्भ्यायदक्षिणमिन्द्रास्तम् वसूयवा वसुपदे वसूना विद्मा हि त्वा गोपतिगुंशो रघोना आत्मभ्यम् चित्रम् इन्द्राः वेदम् विश्वमभिनः पशव्यम् यत्रस्य तिलक्षदा सूर्यस्य गवामसि गोपतिरेख इन्द्र दक्षीमहि दे प्रेदस्य ेवस्ते सम् देवानागं समत्यानाम् आराक्षत्रूरम् उग्रायशम्भक् पुरुः तदेन अस्मेधे हिमद्गोमदिन्द्रीधिगण्डरित्रे वाजरत्नाम् आवेश बृहस्पतिप्रसमञ्जायमानः महोद्गोदिनः परमे सप्ताश्यपि जातो रवेणस्मिदमत्तमागुंशे बृहस्पतिश्रमजविसूनि महोभ्रजान् गोमतो देवयेदः अपश्वितापरप्रदेतः बृहस्पतिरहन्त्यमित्रमर्कैः बृहत्पदेवामित्रे आनो जवः पावीरवीमायत्वानायस्ते स्तनः सरस्वत्यभिनायैः सखायवागुजते धामगिरेणाः पारापदग्नेमवसेतु भक्तिभिः फलस्पतेमाविपासेमधेतिभिः स्वमाधेनकुम् सोमा हन्तमाशुम् स्वमावेरम् कर्मण्यम् ददातु साधन्यम् विदत्सगुम् सभेयम् विदुश्रवणय्यवददा शदस्मै अषादय्युत्सत्वकम् सोमक्रतुभिः यादेधामानहविडा विदन्ते तमिमावोरधेयः स्वामविश्वाहाः ङ्गाः सोपन्तरिक्षम् या ते धामास ते भिन्ना विश्वे सुमनाहेणन् राजन् समपृतिहव्यागृहाय विश्वात्मकन्दरस्य प्रियम् परोवात्रया दुर्वाधाना न ते महित्रमन्वश्नुवन्ति उभेदे विद्वदचे पृथिव्या विष्णादेवत्त्वम् अनवस्य मिथे विचक्रमे तद्देवः आचे महो यो जातयेव अभियोत्राणि आभिस्पृथोमिथचेदरिषण्यन् अमित्रस्य म्यथया मन्यमिन्द्र आभिर्विश्वा अभिजो विशोजीः आर्याय विशोवतारेर्दासीः हयगुषर्मदघ्नन् अयमदप्रगणयविभागाः यदा सत्यन्द्रमते मन्यमिन्द्रः विष्पन् ऋषम्भैदयेजरस्मान् अनुस्वधावक्ररन्नापो अस्य अवर्धनमध्यानाव्यानाम् सद्धृतेनसाधविन्द्रवोधिष्ठेन हन्मनाहन्नभिद्योन् मरुत्पन्तम् वृषभम् वा वृधानम् अकवारिम् दिव्यगुंशासमिन्द्रम् विश्वासा हमवधे नूतनाय उग्रगम्सहोदा विहलकम् भुवेम जनिष्ठा वग्र सहजयुराय मंद्रवोजुष्ठो बहुला अवधनिंद्रम मरतस्थित माता यद्भेलशनिष्ठा क्या वह मृतस्वे येकत्ता ह्युस्त विडस्त विश्वास स्नेस्तथाधम विश्व मरुद्भिन्द्रचन्ते अस्तु अथे मा विश्वाः कृतना जयासि मधेयम् कृत्रम् मरुदयम् जयेन भोवान् अहमेनामनवे विश्वश्चन्द्राः सुगावश्चकरवज्रबाहुः त्रयामोघाः महोदिवृथिव्याश्च सम्राज इन्द्रो वृत्तमथरद्वृत्तदौर्ये अनादर्श्यो मखवासो रीन्द्रः अनन्देन विशोमानन्दमौर्मेः अयगौराजाजगदश्च रक्षणीनाम् स एव वीरः सौ वेद्यावान् स यैकराजो जगतः परस्पाः यदा वृत्तमधरक्षो रवीन्द्रः अथा भवन्तूणाम् वृत्तरन्ते यत्तादानमम् वज्रबाहुः विशोदृगुहृगुहितादृगुहनेन यज्ञम् वर्धयन् विश्ववेदाः यदा वृत्रमजनानाम् इन्द्रोदेवाञ्चम्बराज्ञवानामसोगाः इन्द्रो यज्ञे हविषा वा यस् सप्तजं जागमनद्राप्तं सव्या यस् सप्त लोकानाकं ग्रान्धितश्च इन्द्रविष्मान्तकनां वदने वृत्तदूर्णा यज्ञमिहापयसद इन्द्रस्तरस्पानविमानिहोग्रह इरण्यवाजे रस्त्वरजाः तस्य वैगौंसमदव यज्ञस्य अभिभत्रे लोमनदेस्यमा हिरण्यवान् आवरकंनोद अभिमाग्देन रष्टप्रदनासुष्ठः ृष्टम् वज्रणमप्रतिरम् पुरुहोगमिन्द्रम्पतिर्जनेषु तस्मादिन्द्राय हविराजहोज इन्द्रो देवानामधिपाः पुरोहितः अस्मभ्यम् जितरम्पतीराजये देवानाम् देवानधिवानो अनवस्तेन संवृश् यत् इन्द्र्याह् समस्तव हे दुराजाः अराम्यप्रिता बभूव अभिषिध्वाजिघातस्य शत्रून् विजिमेन वृषभेण पुरोभेन सम्बद्धेणत्रमिन्द्रः तस्वान् मदिमदिरक्षाददानः विष्पम् देवम् वर्णमोदयेभम् मेदधा देवायजध्वम् प्राणो यज्ञमागतम् विश्वसेन प्रजापदस्मे त्रिमित्रम् मेधसा देवावजायजध्वम् विष्णुम् च देवम् वरुणम् च राजेम् तामोहनी यज्ञम् विषमानामुपेदम् विष्णो वरुणा इममध्वरायनः विषेधनामैशर्म यच्छदम् तीर्धप्रयुज्ञो अविषामृधान्यो विषादास्कभिंसे निलेर्येभिर्वेरतमाश्रिष्ठा यापद्ये अप्रदेसोऽभिः विष्णो अयम् वरुणा पूर्वभूतौ विष्णोवरुणा विशस्त्रिपादा देवायजन्तः विजा अवामीपागम् शैलम् नकतश्च असाशक्तै नियमाना युजयोः अगुम्होमचा वृषभा सुकृतो देवानाम् देवतमाशनिष्ठा विष्णो वरुणः प्रतिहर्यदन्नः इदन्नरात्रेण मोदये हविः महेणुज्यावापृथवीह्येष्ठेः ऋचाभवदागुषेभ्यर्चैः यत्सेम् वरुष्टामप्रधानेभिरेवैः प्रभोः रजयवितराणेभिः गेर्भ्यंसने तस्य आनोहाद्या वा पृथभेदैवेन जनेन यातम् महिवाम्बलूथम् सयित्स्वा भुवने अश्वासा ्या वाजाने अपविंसे धीरश्वरन्त्यम् मध्वन्तम् गर्भमपदे दधा च नित्यन्नसोनम् पित्रा रूपे सत्यवाचम् वा पृथिमे सत्यमस्तु पितर्माद्रिहो ब्रूवा भूयम् देवानामवमे अव विद्यामेषम् वृजनम् जीवदानम् उर्वे वृक्षे बहुले दूरे अन्धे अस्मिन् तथा सोक्तस्य इन्द्राघ्ने प्रजलिभ्यः आवृत्तहनाघ्मेप्रः ब्रह्मणस्पदयत्वमस्त्रयन्ताः सूक्तस्य ब्रह्मणस्पदे अयैव्रह्मायोदः जातेन जातपतिसृन्धते ये यञ्जयम् कुरुते ब्रह्मणस्पदे सुयमस्य विश्वस्पदः लीरेषु वेदालोकवृद्धिनस्त्वम् इल्लिशानाम् ब्रह्मणावेशिमेहवम् सज्जनेषु विशासजन्मना स्तोत्रे विवाजम् फलते च नाजपे देवानान्यः पितरमाभिवासदे श्रद्धावनाविषा ब्रह्मणस्पतिम्नामो अन्तः शुक्रन्दे अन्यत्पूषे माशाः प्रपथे प्रथापजनिष्ठपोषाः प्रवचे यः प्रवचे पृथिव्याः उभे अभिप्रेतमे आजपराजलानोषासु पञ्चद्विवाः पृथिव्याःवादस्पमर्थाः सोजलसौर्यायै कामेण कृतम् तपसग्निःष्पञ्चम् अजाश्वः पशुपाजपस्त्यः धियञ्जिन्वा विश्वभुवने अर्पितः अष्ट्राम् पोषाचिशिरामद्वरे विलय सञ्जक्षा न भुवनादेव्यावृतश्रुतीनाम् शुचगुम्हिनाम्यद्वं ज्यः रे चित्रमर्कङ्कणते दुराया मारुतायश्वरम् एतः वः पक्षस्व रुग्मायानाः प्रधातो निदासुषेच्छदास्मभ्यन्तानि बलदोयन्तीरम् इमे रामयन्ते इमेश हस्रधारन्ते इमे गुरुद्वेषन्ते अरायुवेदमाहे प्रप्रजायन्ते अगवामहोभिः कृष्णेष्ठाः सत्रा देवणवृद्रहाे भेन्द्रोन्ते अस्ति श्रीक्षादगेभ्यः उपस्त अपापतिषोनेग्रगम्चणीना चोर से अमुष्टवामपिदधेष्विन्द्रम् यो वायुनाथे ऋगिगोमदेशो रजष्टुयाने शिवस्यो अच्छ आदेशुष्माभयेत् पश्चात् वोक्त पुरस्ता आविश्वतो कर्वान् इन्द्रद्युर्लगम् सुमर्बध्ये यस्मे आदेवो यानुविता सुरत्नः अण्डरिक्षप्रारहमानो अश्रेयेः हस्ते निधानो नर्या निवेशयन् च प्रसुवम् प्रभूम अभिप्रतम् कृशनेर्विश्वरूपम् हिरण्यसम्यक् जतो गृहन्तम् आस्थाप्रसकुन्दमिता चत्रभावः कृष्णारजागुन्दरेन्द्रः तथा नो देवः समिताधभाय आशाविषद्वसुभर्वसूने विश्रयमाणोऽगे भर्तभोजनमसरासेन विजनाः शमाश्रुतिपादो आख्यान्न पृथगम् हिरण्यप्रमुखम् वहन्तः रस्पक्षुतस्वपितर्दैन्यस्य उपश्च विश्वाभुवनानि तत्स्वः ऋतुवर्णोऽन्तरिक्षान्यक्ष्यभीरवे बादुरश्वमेधः कष्टिकेद कदमान्यागम् रश्मिरस्यादताधियम् बालिरम् नः पुरन्धिम् आये वामस्तनम् गेरयीनाम् प्रिया देवः पिदस्याम आमाविश्वे अस्त्रागमन्तु देवाः मित्रमावरणस्तयोगाः भुवन यथा महाविश्वे प्रसादः सुराः देवा विश्वदेवा भवन्तो शकुधरस्वदेशाभिरस्तो शमभिराजः शमुराजिराजः शण्णो दिव्याः पार्थिवाषण्दः सत्यशवस्य विश्वे मित्रस्य मृदयवरुणस्य देवाः हे सौभगम् वीरवर्गो मलग्नः तथा द्रविणम् चित्तमस्मे अग्नेयाधिरोषेण्यः एवायुम् अच्छाः ब्रह्मगणागणेन सरस्वती मरुतो अश्विनाभः यक्षुदेवान् तत् तथेयाय विश्वान् योऽपि सपृथिवादर्थय अग्नेयाभ्यादर्वसवो मृणदानः विश्वादित्यादि सजोषाः अस्मभ्यकम् शर्म बहुलम् वियन्ता विश्वेदेवाश्रुमतेमघुम्भवम् मे ये अन्तरिक्षे यद्यविष्टा ये अज्ञा वायत्रा आदिध्यास्मिन्बर्हिमादरे वरुणाहव्यजिष्टिम् नामवसापवृत्त्या अस्माकम् ब्रह्मवदना अस्माकम् ऋष्य दिव्यासुपारा इवम् वस्त्राणपि वसामसासे इवारच्छिद्रावन्तपोसर्गाः अवादिश्वाः हृदयमित्रावरुणादृदयथे वत्सुवामित्रावरुणामहित्वम् ये रहभिर्गलहे विश्वाः अनुभवमेकप्रविरापवर्ति यद्वंश्छन्नादिविदे अक्षित्रगंशर्मभुरस्य गोपा ततो तो मामित्रावरुणामवेष्टम् सुशासञ्जोजे युवागम् सस्याम आ नो मित्रावरुणाहव्यदादिभामन्त्रमजनायेन आनोगव्योजिमुक्षदम् कृतेन आनो जनेष्वमे मित्रावरुणाहवेमा इमारुद्राय स्थिरधन् वरे गिरः क्षिप्रयष मे देवाय स्वधाम्ने अषाढायुषहमानाय मेधुषे विग्मायुधाय भरदाशुनोदनः त्वादत्तेभिरुद्रसन्तमेभिः शतकुम्भिः यस्मद्मेशोपितरम् यगुम्भः दिवीभागश्चादयस्वाभिशोचेः अर्हन् विभरिमानस्तोके आते पितरदागम् सुन्दमेतो मानस्तूर्योधाः अभिना अभिनावेयक्षमेता प्रजा एमभ्रोरास्विभिन्वो राजानम् सूर्यो देवे अयोजामभ्येजपश्चासे यत्र नरोदे वयन्तो युगानि विदन्मते प्रतिभद्राय भद्राम् भद्राश्वा हरितः सौर्यस्य चित्राय जग्वानुमाद्यादः नमस्यन्तो विवा पृष्ठमस्थो अविद्यावापीयन्ति सद्यः तत्सौर्यस्य देवर्तन्तन्महित्वम् अध्यागर्पोर्वित यदेतश्रथस्थानते तन्मित्रस्य वरुणस्याभिचक्षे सूर्योद्योस्थे अनन्तमन्य कृष्णमन्यद्धरिशः सम्भरन्ति अद्याये वाद्यात् तन्नामित्रहन्तान्धपृथिवेदत्योः दिवो रौचक्ष उदे दूरे अर्थस्तर निर्ध्यायमानः अवरञ्जनासूर्येण प्रसूताः आयन्नत्तानि गणवन्नपागुंसिक्षसा सन्भवान्धाः शम्भारुणाशगम् निवादम् करणेन यथासोर्यन्त्रविनन्देः चित्रम् चित्रम् देवानामुदगादनेकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राद्यापृथिवे अन्तरिक्षम् सूर्य आत्मा जगदत्सुरश्च प्रष्टादस्तुष्टावीरम् विषङ्गरूपः दशेवम् द्वजर्भम्दासो युवदयो विभषतम् तिग्माने यदस्वै सञ्जनेषु विराजमानम् ृह्मम् प्रतिजोषयेत् मित्रो जनान्पथमित्रः अयम् मित्रो नमस्य मस्य राजा सुक्षत्रोष्ठवेधाः अस्य वेदुंसपदो यज्ञस्य अपि भद्वेदो मनजे स्यामः अनमेवास इदयामदन्तः विलग्नभावयमन्नापृथिव्याः आदित्यस्य पदौ वक्ष्यन्तः अयम् मित्रस्य सुपदौ स्यामः मित्रम् गिरा, स्वाधियो विदश अष्टजे जनन् हरे प्रेमज महागङ्गो नमसोपसद्यः यातयजनागणते सुदेवः तस्मादेतत्पन्यतमा युदुष्टम् अग्नमित्राय हविराजहोद आवागुम्प्रसौरोन हिरण्योत्मस्वैः प्रदवर्तने त्वविभेरुजानः विशाम् सपप्रधानयुक्तः गच्छयन् देयेः पुत्र यद्याम् स्वम् मधुमन्तम् विवासः हन्ता दिवोपासदेवत्तनिध्याः श्रियम् परियोषा वृणेता ्राः यज्ञे अस्मिन् समुद्रे पुदोहसन्नः अग्नेशो मायो अद्य वा इदम् वजस्वपर्यते तस्मै सत्तकम् सुवेर्यम् विष्पशियम् अग्नेशो माहविषासपर्यात् देवद्रे चामनसा योऽ तस्य भजगौ लक्षदम् पादमगुमसः विशेषनाय मिषर्म यच्छदम् अग्नेशो मायाभुजम् दासार्थविष्कृजिम् सप्रजया विश्वमाजुर्व्यश्पते अग्ने यदपुष्णेन पणिङ्गोः अवाचतम् प्रतिशेषः अविन्दच्जोकम् बहुभ्यः अग्नेशोमा विलम् सुमेशामा हविरः प्रश्नस्य